माष्टके षष्टः प्रश्नप्रारम्भः ओ अननुमत्यै पुरोडाशमष्टाकपालम् निर्भवति ये प्रत्यञ्च शम्याया अवशीयन्ते तन्नैरृतमेककपालम् इयम् वा अनुमतिः इयम् निरृतिः मे रऋतेन पूर्वेण प्रचरति आत्मानमेव निरवृतिम् पूर्वान् निरपदयते एककपालो भवति एकधैव निर्वृतिम् निरवदयते यदहुत्वादारहपत्य ईयोः रुद्रो भूत्वाग्निरनोत्थाय अध्वर्यम् च यजमानम् च हन्यात् वीह्यस्वाहाहुतिञ्जुषाणयित्याह आहुत्यै वै नगुम् शमयति नार्तिमार्च्छत्यध्वर्यम् न यजमानः एकोन्मुखे नयन्ति तद्धि निर्वृत्यै भागधेयम् इमान् निशयन्ति एषा वै निर्वृत्यै दिग स्वायामेव दिशि निरवदयते स्वकृतकिलिणे जुहोति प्रदरे वा एतद्वै स्वदेवायतने निर्वृतिम् निरवदयते एष ते निरृते भाग इत्याह निर्दिशत्येवैनाम् भूते हविष्मत्यसीत्याह भूतिमेवोपावर्तते मुञ्चे मम गुम्हस इत्याह अगुम्हस एवैनम् मुञ्चति अङ्गुष्ठाभ्याम् जुहोति अन्तत एव निर्वृतिम् निरवदयते कृष्णम् वासः कृष्णतोषम् दक्षिणा एतद्वै निर्वृत्यै रूपम् रूपेणैव निर्वृतिम् निरवदयते अप्रतीक्षमाजन्ति निर्वृत्यामन्वर्हृत्ये स्वाहा नमो य इदम् चकारेति पुनरेत्यगार्हपत्ये जुहोति आहुत्यैव न पस्यन्तो गार्हपत्यमुपावर्तन्ते आनुमते न प्रचलति इयम् वा हनुमतिः इयमेवास्मै राज्यमनुमन्यते धेनुर्दक्षिणा इमामेव धेनुम् कुरुते आदित्यम् चरुन् नपति भयेष्वेव प्रजास्वभिषिच्यते देवेषु च मानुषेषु च परो परो हि राज्यगम् समृद्ध्यै आग्ना वैष्णवमेकादशरपालम् अग्न्यः सर्वा देवताः विष्णुर्जज्ञः देवताश्चैव यज्ञम् चावरुन्धे दे। वामनो बही दक्षिणा यद्वही तेनाग्नेयः यद्वामनः तेन वैष्णवः समृद्ध्यै अग्नेशोमेयमेकादशकपालम् नर्वपदी अग्नेशोमाभ्याम् अग्ने वा इन्द्रो वृत्रमहन्निति यदग्नेशोमेयमेकादशकपालम् निर्वपति वार्द्रघ्नमेव विजित्यै हिरण्यम् दक्षिणासमृद्ध्यै इन्द्रो वृत्रगम् हत्वा देवताभिश्चेन्द्रियेण च व्याध्यत स एतमीन्द्राग्नमेकादशकपालमपश्यत् यदैन्द्राग्नमेकादशकपालन् का निर्वपति देवताश्चैव तेनेन्द्रियम् च यजमानो वरुन्धे ऋषभो वही दक्षिणा यद्वही तेनाग्नेयः यदृषभः तेनैन्द्रः समृद्ध्यै आग्नेयमष्टाकपालन् आग्ने निर्वपति ऐन्द्रम् दधि यदाग्नेयो भवति अग्निर्वै यज्ञमुखम् ज्यम्खाम, यज्ञमुखमे वर्द्धिम् पुरस्ताद्धत्ते यदीन्द्रम् वधि इन्द्रियमेवावरुन्धे वृषभो वही दक्षिणा यद्वही तेनाज्ञेयः यदृषभः तेन इन्द्रः स्वध्यै यावतीर्वै प्रजा ओषधी नाम हुता नामाश्नन् ताः पराभवन् आग्रयणम् भवति हुताद्याय यजमानस्यापराभावाय देवा दे दे दे वा ओषधेष्वाजुमयोः ता इन्द्राग्ने कुलजयताम् तावेतमे इन्द्राग्नम् द्वादशकपालम् निरवृणाताम् यदेन्द्राग्नो भवत्युज्यत्ये द्वादशकपालो भवति द्वादशमासाः संवत्सरः संवत्सरेणैवास्मा अन्नमवरुन्धे वैश्वदेवश्चरोद्भवति वैश्वदेवम् वा अन्नम् अन्नमेवास्मै स्वदयति प्रथमजो वत्सो दक्षिणा समृद्धि सौम्यग्दिश्यामाकञ्चरम् निर्वपते सोमो वा अकृष्टपक्ष्यस्य राजा अकृष्टपक्ष्यमेवास्मैस्वदयति वासो दक्षिणा सौम्यगम् हि देवतया वासः समृद्ध्यै सरस्वत्यै चरम् निर्भवति सरस्वते चरम् मिथनमेवावरुन्धे मिथनौ गावौ दक्षिणा समृद्ध्यै एति वा एष यज्ञमुखादिध्याः यो अग्नेर्देवताया एति अष्टावेतानि हवीगुंषि भवन्ति अष्टाक्षरा यत्रो अग्निः तेनैव यज्ञमुखा विध्या अग्नेर्देवतायैमैति वैश्वदेवेन वै प्रजापतिः प्रजासृजत ता सृष्टा न प्राजायन्त सोऽग्निरकामयत अहमिमाः प्रजनये यमिति स प्रजापतयेषु च तस्माद्यम् च प्रजाभुनक्तिजम् चन ता बुभोषोचतः प्रजामिच्छमानौ तास्वग्निमप्यसृजत् ता अग्निरध्येयेत् ता सोमोरेतो दधात् सविता प्राजनयत् सरस्वती वाचमदधात् ऊषा पोषयत् दे वा संवत्सरो वै प्रजापतिः संवत्सरेणैवास्मेः प्रजाः प्राजनयत् ताः प्रजा जाता मरुतोघ्नन् अस्मानपि न प्रायुक्षतेति स एतम् प्रजापतिर्मारुतगम् सप्तकपालमपश्यत् तन्निरपपत् ततो वै प्रजाभ्यो कल्पत यन्मारुतो निरुप्यते यज्ञस्य कृत्यैः प्रजानामघाताय सप्तकपालो भवते सप्तगणा वे मरुतः गणश एवास्मै विषङ्कल्पयति स प्रजापतिरशोचत् याः पूर्वाः प्रजा असृक्षे मरुतस्ता अवधिषुः कथमपरा सृजेजेति तस्य सुष्माण्डम् भूतम् निरवर्तत तदव्युदहरत् तदपोषयत् तत्प्राजायत आण्डस्य वा एतद्रूपम् यदामिक्षाः यद्धिद्धरति प्रजा एव तद्यजमानः पोषयति वैश्वदेव्यामिक्षा भवति वैश्वदेव्यो वै प्रजाः प्रजा, प्रजा एवास्मे प्रजनयति वाजिनमानयति प्रजास्वेव प्रजाता सुरेतो दधाति एककपालो भवति प्रजा एव प्रजाताद्या वा पृथिवीभ्याम् भयतः परिगृह्णाति दे। देवासुराः सङ्गत्ता आसन् सोऽग्निरब्रवीर मामग्रे रजता मया मुखे नासुराञ्जेष्यथेति माम् द्वितीयमिति सोमा ब्रवीर मया राज्ञा जेष्यथेति माम् तृतीयमिति सविता मया प्रसूता जेष्यथेति माम् चतुर्थीमिति सरस्वती इन्द्रियम् मोहन्धास्यामीति माम् पञ्चममिति कूषा मया प्रतिष्ठया जेष्यथेति ते ज्ञना मुखेनासुरानजयन् सोमे धराज्ञाः सवित्रा प्रसूताः सरस्वतेन्द्रियमदधात् पूषा प्रतिष्ठा सेत् ततो वै देवाव्यजयन्त यदेतानि हवेगुंशिरोप्यन्ते विजित्ये स्मोत्तरवेदिमुपपपति पशवो वा उत्तरवेदिः अजाताब्रह्येतर्हि पशवः त्रिवद्बर्हिर्भवति माता पिता पुत्रः तदेव तन्मिथुनम् उल्बङ्गर्भो जराय तदेव तन्मिथुनम् रेधा बर्हिः सन्नद्धम् भवति त्वय इमे लोकाः येष्वेव लोकेषु प्रतितिष्ठति एकधा पुनः सन्नद्धम् भवति एक इव ह्ययम् लोकः अस्मिन्नेव तेन लोके प्रतितिष्ठति प्रसुवो भवन्ति पुष्टिमवरुन्धे प्रथमजो वत्सो दक्षिणासमृद्ध्यै वृषदाज्यम् गृह्णादि पशवो वै पृषदाज्यम् पशोमेवावरुन्धे पञ्चगृहीतम् भवति पान्ता हि पशवः बहुरूपम् भवति बहुरूपा हि पशवः समृद्ध्यै अग्निम् वन्थन्ति अग्निमुखा वै प्रजापतिः प्रजा, प्रजा असृयत यदग्निम् वन्थन्ति अग्निमुखा एव तत्प्रजा यजमानः नवप्रजाजा इज्यन्ते मानो याजाः अष्टौ हरिगुंषि द्वावाघारौ द्वावाद्यभागौ त्रिपुंशत्सम्पद्यन्ते त्रिगुंशदक्षरा विराड् अन्नम् विराड् विराजैवान्नाद्यमवरुन्धे यजमानो वा एककपालः तेज ते आज्यम् यदेककपाल आज्यमानयति यजमानमेव तेजसा समर्थयति यजमानो एककपालः पशव आज्यम् यदेककपाल आज्यमानयति यजमानमेव पशुभिः समर्थयति यदल्पमानयेत् अल्पायेनम् पशवो भुञ्जम् द उपदिष्ठेरन् यद्बह्वानयेत् बहवेनम् बह्वानीया विः पृष्ठम् कुर्यात् बहव एवैनम् पशवो भुञ्जन्त उपतिष्ठन्ते यजमानो वा एककपालः यदेककपालस्यावद्येत् यजमानस्यावद्येत् उद्वामाद्येद्यजमानः प्रवामीजेत सकृदेवहो दव्यः सकृजिवहिसु वर्गो लोकः हुत्वाभिजुहोति यजमानमेव सुवर्गम् लोकम् गमयित्वा तेजसा समर्थयति यजमानो वा एककपालः स्वर्गो लोकाहवनीयः यदेककपालमाहवनीये जुहोति यजमानमेव सुवर्गम् लोकम् गमयति यद्धस्तेन जुहुयात् स्वर्गाल्लोकाद्यजमानमवबिध्येत् सृजा जुहोति स्वर्गस्य लोकस्य समष्ट्ये यत्प्राम् पद्येत देवलोकमभिजगेर् दे दे। यद्दक्षिणामितृलोकान् याप्रत्यग रक्षागुंस यज्ञगम् हन्युः यदुदङ् मनुष्यलोकमभिजगेर् प्रतिष्ठितोः तज्ञः एककपालम् वै प्रतिष्ठन्त्या वा पृथिवीप्रतिष्ठतः या वा पृथिवी ऋतवः ऋतो नियज्ञः यज्ञम् यजमानः यजमानम् प्रजाः तस्मात्प्रतिष्ठितोः दव्यः वाजिनो यजति अग्निर्वायुः सौर्यः ते वै वाजिनः तानेव तद्यजति अथो खल्बाहुः छन्दागुं शिवैवाजिन इति तान्येव तद्यजति वृक्सामेव इन्द्रस्य हरिसोमपानोः परिधय आधानम् वाजिनम्भागधेयम् इलप्रहृत्यपरिधेञ्जुहुयात् अन्तराधानाभ्याम् घासम् प्रगच्छेत् प्रहृत्यपरिधेञ्जुहे निराधानाभ्यामेव घासम् प्रगच्छति बर्हि शिविषिञ्छन् प्रजावे बर्हिः प्रेतावाजुनम् प्रजास्वे रेतो दधाति समुपहूय भक्षयन्ति एतत् स्वमपि साह्येते अथो आत्मन्नेव रेतो दधते यजमान उत्तमो भक्षयति पशवो वैवाजिनम् यजमान एव पशून् प्रतिष्ठापयन्ति प्रजापतिः स पिता भूत्वा प्रजा, प्रजा, प्रजा, प्रजा, प्रजा, प्रजा असृजत ता एनमत्यमन्यन्त अस्मादपा आक्रामन् तावरुणो भूत्वा प्रजावरुणेनाग्राहयत् ताः प्रजावरुणगृहीताः प्रजापतिम् पुनरुपाधावन्नाथमिच्छमानाः स एतान् प्रजापतिर्वरुणप्रभासा न पश्यत् तान्निरवपत् तैरवयसः प्रजावरुणपाशादमुञ्चत् यद्वरुणप्रभासानि नृप्यन्ते प्रजानामवरुणग्राहाय तासाम् दक्षिणो बाहुन्यग्न आसीत् सव्यः प्रसृतः स एतान् विजेयान् दक्षिणतो वेदि मुदहन् ततो वे स प्रजानाम् दक्षिणम् बाहुम् प्रासारयत् यद्विजेयान् दक्षिणतो वेदि प्रजानामेव तद्यजमानो दक्षिणम् बाहुम् प्रसारयति तस्माच्चादुर्मास्य याज्यमस्मिल्लोक उभया बाहुः यज्ञाभिजितगृह्यस्य प्रथमात्राद्वेदी असम्भिन्ने भवतः तस्मात् प्रथमात्रम् यगुंसो उत्तरस्याम् वेद्यामुत्तरवेदिमुपपति पशवो वा उत्तरवेदिः परशूने वरुन्धे अथो यज्ञपरशोऽनन्तरित्यै एतब्रा बाह्मणान्येव पञ्चहवीगुंषि अथैष ऐन्द्राज्ञो भवति प्राणापानौ वा एतौ देवानाम् यदिन्द्राग्नी यदीन्द्राज्ञो भवति प्राणापानावेवावरुन्धे ओजो बलम् वा एतौ देवानाम् ्राग्नि यदीन्द्राग्नो भवति ओजबलमेवावरुन्धे मारुत्यामिक्षा भवति वारुण्यामिक्षा मेषी च मेषश्च भवतः एव प्रजावरुणपाशान्मुञ्चति गोमशौ भवतो मे ध्यक्त्वा चमीपर्णान्युपवति घासमेवाभ्यामपि यच्छति प्रजापतिमपनम स एक शतेन हमिषान्नांध ये अन्नाव्यई सौम्या सौम्या खलुवा आहुतिर्दिव वृष्टि शावती यीरा सौम्ययी आहुत दिवो वृष्टिमुंधे काल एककपालो भवति प्रजानाम् कन्त्वाय प्रतिपूरुषम् करम्भपात्राणि भवन्ति जाता एव प्रजावरुणपाशान्मुञ्चति एकमतिरिक्तम् जनेष्यमाणा एव प्रजावरुणपाशान्मुञ्चति उत्तरस्याम् वेद्यामन्यानि हरिगुंषि साधयति दक्षिणायाम् मारुतीम् अपधुरमेवेनाजुनक्ति अधोको जगेवासामवहरति तस्माद्ब्रह्मणश्च क्षत्राच्च विशोऽन्यतोपक्रमिणीः मारुत्या पूर्वजा प्रचरति अनृतमेवावगजते वारुण्योत्तरया अन्तत एव वरुणमवगजते यदेवाद्धर्यः करोति तत्प्रति प्रस्थाता करोति तस्माद्व्यच्छ्रेयाम् करोति तत्पापीजाम् करोति पत्नीम् वाचयति मेऽध्यामेवैनाम् करोति अथोतपकेवैनामुपनयति यज्जारकम् सन्तन्न प्रब्रूयात् प्रियाम् ज्ञातिकम् वृन्ध्यात् असो मे जारकिति निर्दिशेत् वरुणपाशेन ग्राहयति प्रथा स्या हवामः यदि पत्नी मुदानयति अहपते वैनाम् यत्पत्नी पुरोनवाक्यामनोब्रूजात् नव्योजमानः स्यात् यजमानान्वाह आत्मन्नेव वेद्यम् धत्ते उभौ याच्यापुंसवेर्घत्वाय यद्ग्रामे यदरण्यनित्याः यथोदितमेव वरुणमवयजते यजमानदेवत्यो वा आहवनीयः भ्रातृव्यदेवत्यो दक्षिणः यदाह वनीये जुहुयात् यजमानम् वरुणपाशेन ग्राहयेत् दक्षिणेऽग्नौ जुहोति भ्राद्रुव्यमेव वरुणपाशेन ग्राहयति सोऽर्पेण जुहोति अन्यमेव वरुणमवयजते शीर्षन्नधि निधाय जुहोति शीर्षतगेव वरुणमवगजते प्रत्यङ्ष्ठन् जुहोति प्रत्यङ्गेव वरुणपाशान्निर्मुच्यते अक्रम् कर्म कर्म कृतवित्याः देवानृणन्निरपदाय अरुणागृहानुपप्रेतेति वा वीतदाः वरुणगृहीतम् वा एतद्यज्ञस्य यद्यजुषा गृहीतस्यातिरिच्यते तुषास् निष्कासै निष्कासे नावभसम वैति वरुणगृहते नरुणवगजते अभृषसम वैति असु वै वह साक्षाद वरुणवगजते प्रति वरुण से पाशिद्याह वरुणपादच्यतीक्ष वरुण सान्द्रिहित ये धिशीमह सैवाग्निन्मश्य उपाय तेजोसी ते तेजो मिधेह तेज एवं भक्वासुरा ते संगसन सोनिब्रवीत मेयजमनीकनो राेणी अथा भविष्य देवा अग्नयेनीकवदे पुरोणाशमष्टाकपालन् निरवपन् सोऽग्निरणीकवान् स्वेन भागधेयेन प्रीतः चतुर्ध्वानीकान्यजनयत ततो देवा अभवन् परासुराः यदग्नजेनीकवदे पुरोणाशमष्टाकपालन् निर्वपति अग्निमेवानीकवन्तज्ञस्वेन भागधेयेन प्रीणाति सोऽग्निरणीकवान् स्वेन भागधेयेन प्रीतः चतुर्थानीकानि जनयते असौ वा आदित्यो अग्निरणीकवान् तस्य रश्मयोऽनीकानि साकगुंसोर्गेणोऽध्युता निर्वपति साक्षादेवास्मानीकानि जनयति ते सुराः पराजितायन्तः ्या वापृथिवी उवा आश्रयन् ते देवावरुद्भ्यः स्वान्तपदेभ्यश्चरन् निरपपन् तान्द्या वापृथिवेभ्यामेवो भयतः समतपन् यन्वरुद्भ्यः स्वान्तपदेभ्यश्चरन् निर्वपपति या वापृथिवीभ्यामेव तदुभयतोदितमानो भ्रातृर्व्याम् सन्तपति मध्यम् दिने निर्पपति तर्हि ते क्ष्णिष्ठन्तपति चरुर्भवति सर्वत एवे सन्तपति ते देवाश्वो विजयिनः सन्तः सर्वासाम् दुग्धे गृहमेधीयम् चरुन् निरवन् आशिका एवाद्योपवसाम कस्य वा कस्य वाश्वो भजितेति स श्रुतोऽभवत् तस्याहुतस्य नाष्टन् न हि देवा अहुतस्याश्नन्ति ते ब्रुवन् कस्मादिव गुम्होश्यामदिति मरुद्भ्यो गृहमेधिभ्यरित्यब्रुवन् तम् मरुद्भ्यो गृहमेधिभ्यो जुहवुः ततो देवा अभवन् परासुराः यस्यैवम् विदुषो मरुद्भ्यो गृहमेधिभ्यो गृहे जुक्पति भवत्यात्मना शब्धातृव्यो भवति यद्वै यज्ञस्य पाकत्रा क्रियते पशव्यम् तत् एतक्रियते वा एतत् क्रियते यन्मेध्वा बर्हिर्भवति रसामिधे नीरन्वाः न प्रयाजा युज्यन्ते नानः एवम् वेदा पशुमान् भवति आज्यभागो यजति यज्ञस्यैव चक्षुषी नान्तरेति मरुतो गृहमेधिना गजति भागधेयेनैवैनान् समर्थयति अग्निज्ञस्विष्टकृतम् गजति प्रतिष्ठत्यै इडान्तो भवति पशवो वा इडा पशुष्वेवोपरिष्टात् प्रतिष्ठति यत्पत्नी गृहमेधेयस्या स्नेयात् गृहमेध्येव स्यात् इत्त्वस्य यज्ञरुध्येत यन्नास्नीयात् अगृहमेधी स्यात् नास्य यज्ञोऽभ्युर्ध्येत प्रतिवेशम् पचेयुः तस्यास्नीलात् गृहमेध्येव भवति नास्य यज्ञोऽव्युध्यते ते देवगृहमेधीरे नेष्ट्वा आशिता अभवन् आञ्जताभ्यञ्जत अनुवत्सा न वासयन् तेभ्योऽसुराः क्षुधम् प्राहिण्वन् सा देवेषु लोकमवित्त्वा असुरान् पुनरगच्छत् गृहमेधीजे नेष्ट्वा आशिता भवन्ति आञ्जतेभ्यञ्जते अनुवत्सा निसयन्ति भ्रातृव्यादैव तद्यजमानः क्षुधम् प्रहिणोति ते देवा गृहमेधीजेनेष्ट्वा इन्द्राय निष्कासन्यदधुः अस्मानेव स्व इन्द्रो निहितभाग उपावर्तितेति तानेन्द्रो निहितभाग उपावर्तत गृहमेधीजेनेष्ट्वा इन्द्रायनिष्कासन्यदध्याद् इन्द्र एवैन निहितभाग उपावर्तते भागधेयेनैवैनगम् समर्थयति वृषधमाह्वयति वषक्कार एवास्य सः अथो इन्द्रियमेव तद्वीर्यम् यजमानो भ्रादृव्यस्य वृन्ते इन्द्रोभृत्रगम् हत्वा पराम् परावतमगच्छत् अपाराधमिति मन्यमानः सोऽब्रवीर क इदम् ते ब्रुवन्मरुतो वरम् वृणामहे अथ वयम् वेदाम अस्मभ्यमेव प्रथमगम् हविर्न रप्याथा इति पयेदमद्भ्यः क्रीडन् तत्क्रीडिनाम् क्रीडित्वाम् यन्मरुद्भ्यः क्रीडिभ्यः प्रथमगम् हविर्न रप्यते विजित्यै साधकम् सूर्येणोऽभ्यता एतस्मिन् वै लोक इन्द्रो वृत्रमहा एतद्ब्राह्मणान्येव पञ्च हरिगुंषि एतद्ब्राह्मण ऐन्द्राग्नः अदेष ऐन्द्रश्चरुर्भवति वृद्धारम्भ एतमिन्द्र उदहरक रत्रगम् हत्वा अन्यासु देवतास्वहि यदेश ऐन्द्रश्चरुर्भवति उद्धारमेव तै यजमान उद्धरते अन्या स प्रजाश्व वैष्वकर्मण एककपालो भवति विश्वान्येव तेन कर्माणि यजमानोऽरुन्धे वैश्वदेवेन वै प्रजापतिः प्रजा असृजत तावरुणप्रभासैर्वरुणपाशादमुञ्चत् साकमेधेः प्रत्यस्थापयत् त्यम्बकैरुद्रम् निरवादयत पितृयज्ञेन सुवर्गम् लोकमगमयत् यद्वै ईश्वदेवेन यजते प्रजा एव तद्यजमानः सृजते तावरुणप्रभासैर्वरुणपाशान्मुञ्चति साकमेधैः प्रतिष्ठापयति त्यम्बकैरुद्रम् निरवदयते कृतृयज्ञेन सुवर्गम् लोकम् गमयति दक्षिणतः प्राधीना वीते निर्वपति दक्षिणा वृद्धिपितृणा आदृत्यतत् उत्तरत एवोपबीजनिर्भपेत् उभयेहि देवाश्च पितरश्चेज्यन्ते असौ यदेव दक्षिणार्थे हि श्रयति तेन दक्षिणावृत् सोमायपितृपते पुरोणा शकुंशक्कपालम् निर्वपति संवत्सरो वे सो सोमः पितृवान् सम्वत्सरमेव प्रीणाति पितृभ्यो बर्हिषद्भ्यो धानाः मासा पितरो बर्हिषदः मासानेव प्रीणाति यस्मिन्वादितो पुरुषः प्रमीयते सोऽस्यामुष्मिन् लोके भवति बहुरूपाधाना भवन्ति अहोरात्राणामभिचित्यै त्रिविर्भ्योऽष्वात्तेभ्यो पन्थम् अर्धमासा वै पितरोग्निष्वात्ताः अर्धमासानेव प्रीणाति अभिवान्यादि दुग्धे भवति सा हि पितृदेवत्यन्दुहे यत्पूर्णम् तन्मनुष्याणाम् उपरि अर्धो देवानाम् अर्धः पितॄणाम् अर्धो हि पितृणाम् एकजोपमन्थसि एका, एका हि पितृणाम् दक्षिणोपमन्थसि दक्षिणावृद्ध्यपितृणाम् अनारभ्योपमन्थसि तद्ध्यपितृम् गच्छति इमान्तिसंवेदिमुद्धन्ति उभये हि देवाश्च पितरश्चेद्यन्ते चतुस्रक्तिर्भवति सर्वाह्यनुदिशः पितरः अघाता भवति ता हि देवानाम् मध्यतोग्निराधीयते दे। अन्ततो हि देवानामाधीयते दे। परुषीया निध्वद्भवदिव्यावृत्ति परिश्रयति अन्तर्हितो हि पितृलोको मनुष्यलोकात् यत्परुषिदिनम् तद्देवानाम् यदन्तरा तन्मनुष्याणाम् यत्समूलम् तत्पितृणाम् समोऽलम्बर्हिर्भवति व्यावृत्त्यै दक्षिणास्तृणाति दक्षिणा वृद्धिपितृणाम् त्रिः इतो लोके पितरः तानेव प्रीणाति त्रिः पुनः पर्येति षट् सम्पद्यन्ते षड्वा ऋतवः प्रमायुको यजमानः स्यात् यन्न गृह्णीयात् अनायतनः स्यात् तोष्णीमेवन्यस्येत् न प्रमायुको भवति नानायतनः यत्रेन्परिधेन् परिदध्यात् मृत्युमायजमानम् परिगृह्णीयात् यन्न परिदध्यात् रक्षागुंसि यज्ञगुम्हन्यः द्वौ परिधे परिदधाति रक्षसामपहत्यै अथो मृत्योरेव यजमानमुत्सृजति यत्रीणि त्रीणि हवेगुश्युदाहरेजुः त्रयस्त्रयेषागम् साकम् प्रमेजेरन् एकैकमदोचीनान्युदाहरन्ति एकैक एवैषामन्वञ्चः प्रमीयते एक एक एक एक एक कशिपु कशिपव्याय आञ्जनमाञ्जन्याय अभ्यञ्जनमभ्यञ्जन्याय यथाभागमेवीनाम् क्रीणाति अग्नये देवेभ्यः पितृभ्यः स विद्यमानाय अनुब्रूहीत्याह उभये हि देवाश्च पितरश्चेद्यन्ते एकामन्वाः एका हि पितॄणाम् त्रिरण्वाः त्रिभिः देवानाम् घारावाघारयति यज्ञपरशोरनन्तरित्यै नारषेजम् वृणीते न होतारम् यदारषेजम् वृणीत यद्धोतारम् प्रमायुको यतमानः स्यात् प्रमायुको होता तस्मान्न वृणीते यतमानस्य होतर्गोपीठाय अपपर्हिषः प्रजानयजति प्रजा वै बर्हिः प्रजा एव मृत्योरुत्सृजति आज्यभागौ यजति यज्ञस्यैव चक्षुषी ताम् तरेति प्राचीना भीति सोमम् यजति पितृदेवत्या हि एषाहुतिः पञ्चकृतो वद्यति पञ्चह्येता देवताः देवलोऽनुवाक्ये याज्या देवतावशत्कारः एव प्रीणादि सन्ततमपद्यति ऋतोजादुम् सन्तत्यै त्वैवैभ्यः पूर्वजापरोऽनुवाक्ययाः प्रणयति द्वितीयया गमयति याद्यया तृतीयेव इतो लोके पितरः अह्न एवै नान्पूर्वजापरोऽनुवाक्ययात्यानयति रात्रिजै द्वितीयया अयमै ना्याज्यजागमयति दक्षिणतो मदाय उदङ्गतिक्रामतिव्यावृत्त्यै आश्वथेत्याश्रावयति अस्तु स्वथेति प्रत्याश्रावयति स्वधानमहि निवशः करोति स्वधातारो हि पितृणाम् सोममग्रे यजति सोमप्रजाहि पितरः सोमम् पितृमन्तम् यजति संवत्सरो वै सो वः पितृवान् संवत्सरमेव तद्यजति पितृर्हिषदो यजति ये वैरज्वानः ते पितरो बर्हिषदः तानेव तद्यजति पितरग्निष्वात्तान् यजति ये वा अयज्वानो गृहमेधिनः ते पितरो अग्निष्वात्ताः तानेव तद्यजति अग्निम् कव्यवाहनम् यजति त एवपि तृणामग्निः तमेव तद्यजति अथो यथाग्निज्ञस्यष्टकृतम् यजति तादृगेव तत् एतत्ते तदेच्छक्तामन्विति सृश्रक्तिषु निदधाति तस्मादातृतीयात्पुरुषान्नामनगृह्णन्ति एतावन्तो हीज्यन्तेः अत्र पितरो यथाभागम् मन्दध्वमित्याही पितरः उदन्तो निष्क्रामन्ति येषा वै मनुष्यानाम् दिग् स्वामेव तद्दिशमनुनिष्क्रामन्ति आहवनीयमुपतिष्ठन्ते येवास्मि तद्धुवते यत्सत्याहवनीये अधान्यप्रचरन्ति आतमितोरुपतिष्ठन्ते अग्निमेवोपद्रष्टारम् कृत्वा पुराङ्गिरवदयन्ते अन्तम् वा एते प्राणानाम् गच्छन्ति य आतमितोपतिष्ठन्ते सुसन्दृशन्त्वा वयमित्याह प्राणो वै सुसन्दृग् प्राणमेवात्मधते यो जान्विन्द्रदेहरी इत्याह प्राणमेव पुनरयुक्ता अक्षण्ण मे मदन्त हे दिगार्हवक्यमुपतिष्ठन्ते अक्षण्ण मे मदन्ताधत्वोपतिष्ठामः इति वावैतदाः अमे मदन्तपितरः सोम्या इत्यभिप्रपद्यन्ते अमे मदन्तपितरो धिप्रपद्यामः इति वा वैतदाः अपः परिषिञ्चति मार्जयत्येवैनानि ृप्यते प्रजया पशुभिः य एवम् वेद अपबर्हि शावनो याजो यजति प्रजा मे बर्हिः प्रजा एव मृत्योरुत्सृजति चतुरः प्रजाजान् यजति द्वावनो याजो षट्सम्पद्यन्ते षड्वा ऋतोनेव प्रीणाति न पत्न्यम् वा आस्ते न यत्संयाजयेः प्रमायुका स्यात् तस्मान्नान्वास्ते न संयाजयन्ति पत्न्यैगोपीठाय प्रतिपूरुषमेककपालान् जा। निर्पपति जाता एव प्रजारुद्रान्निरवदयते एकमतिरिक्तम् दृश्यमाणा एव प्रजारुद्रान्निरवदयते एककपाला भवन्ति एकथैव रुद्रम् निरवदयते नाभिधारयति यदभिधारयेत् अन्तरवचारिणकम् रुद्रम् कुर्यात् एकोन्मुखेन यन्ति तद्धि रुद्रस्य भागधेयम् इवाम् दिशयन्ति एषा रेद्रस्य दिक् स्वायामेव दिशि रुद्रम् निरवदयते रुद्रो वा अपशुका या आहुतेनातिष्ठत असौ ते पशुरिति निर्दिशेद्यम् दृश्यात् यमेव द्वेष्टि तमस्मै पशुम् निर्दिशति यदि न द्विष्यात् आहुस्ते पशुरिति ब्रूयात् न ग्राम्यान्पशो निर्हिणस्ति नारण्यान् चतुष्पथे जुहोति एष वा अग्नीनाम् नाम अग्निवत्येव जुहोति मध्यमेन पर्णेन जहोगि सु अथो खलु अन्तमेनैव होतव्यम् अन्तत एव रुद्रम् निरवदयते एष ते रुद्रभागः सह स्वस्राम् विकयेत्याह शरद्वा अस्याम् विकास्वसाः प्रजा वा एष हि नस्ति यगम् हिनस्ति तदैवैनगम् सह भेषजङ्गमलित्याः यावन्त एव ग्राम्याः पशवः तेभ्यो भेषजम् करोति अमाअम्बरुद्रमलिमहीत्याः आशिषमेवेतामाशास्ते त्र्यम्ब गङ्गजामहरित्याः मृत्योर्मुक्षे यमामृतादि दिवावेतदाः उत्किरन्ति भगस्य लीप्सन्ते मूते कृत्वा सजन्ति यथा जनम् यते वसम् करोति तादृगेव तत् एष ते रुद्रभागहित्याः निरवत्यै अप्रतीक्षमायन्ति अवः परिषिञ्चति रुद्रस्याङ्गर्हित्यै प्रवा एते यस्माल्लोकाच्यमन्ते येत्र्यम्बकैश्चरन्ति आदित्यञ्चरम् पुनरेत्यनिर्भवति अतिथि अश्मे प्रतिष्ठ प्रथमा ष्ट प्रश्न स